गणेशपुराणं क्रीडाखण्डम् अध्यायं 136 अण्ड् तर्टि क उवाच एकस्मिन् दिवसे देवो जगादमुनिसप्तमं पराशरं महाभाग्यं परदुःखप्रपीडितः गजानन उवाच सिन्धूरेण दुदुष्टेन पीडितं सकलं जगद स्वाहा स्वथा वशत्कारैर्वर्जितं वेदघोषतः स्थानभ्रष्टा देवगणा भ्रष्टा ऋषिगणास्तथा गजाननस्वरूपेण करिष्ये दुष्टनाशनम् साधूनां पालनं चैव भूभारहरणं तथा स्थापनं सर्वदेवानामानन्दं जगतोऽपि च निधेहि मस्तकेतात पाणिमे भयदं शुभं, शुभम् अनुग्रहप्रसादात्ते हनिष्ये दुष्टदानवान् मुनिवाच आश्चर्य परमं बाल बाल याचते असाध्यं बालककौतुकाचते चंद्रमंडल असाध्यम दशकर्तं तथेसी यसेन गिरय पतंती शदशो भुवि पादाखादेन यस्याशु कम्पदे भुवनत्रयं कथं त्वं युध्य शेतेन विषतन्दुशरीरवान् चरित्वा नववर्षाणि पूर्णानि तव साम्प्रतं ममानुग्रहमात्रेण भविष्यसि तदायं निहितो हस्तो मस्तके भयदायकः क उवाच तदोहर्षयुधो देवो नमस्कृत्य मुनिं तदा जननीमपि दुर्गां च श्रीहरिं हरमेव च ययोद्धुमूषकम् मारुह्य स गजाननः अङ्गुशं परशुं पाशं कमलं च चतुर्भुजैः दधानो गर्जनेनाशुकम्पयन्भुवनत्रयं प्रज्वलं त्यजसाश्वेन प्रलयानलसन्निभः क्षणेन प्रापसिन्धूरनगरं स गजाननः घुसृणेश्वरसान्निध्यात्सिद्धसिन्धूरवाटकम् तत्रस्थप्रशस्सासौ सिन्धूरो भुवनत्रयं तदुत्तरे स्थितो देवो जगर्ज गर्जयन् दिशः चूक्षोभोः सागरा सप्तविशीर्णागिरयोऽपि च श्रुत्वा निनादं तस्याशु सर्वदैत्याश्चकम्पिरे मुमूर्च्छोर्भिरव सर्वे के जिन्मृत्युमुपाययुः सिन्धूरोऽपि मुमूर्चाशुक्षणेन प्रकृतिं ययौ उवाच सेवकान् सर्वान् कोयं गर्जति मूर्च्छा प्राप्ता मया कस्माद्यब्देन पुरकथं दास्यामि तत्परस्तातुं कस्य शक्तिर्भविष्यति ततस्ते सेवका जग्मुस्तदा बालसमीपतः तद्रूपं ते निरीक्ष्यैव सिंहस्य करिणो यथा बिभुश्चैव चकम्भुश्च केचिद्धैर्यात्तमब्रुवन् कस्य त्वं कुत आयातः किमर्थं तव सिन्धूरो विश्वसंहाररसिखक्रोधसंयुतः श्रुत्वा दे सर्वं कम्पितम् च सिन्दुरम् बालोऽपि बलवान् भासि च दुःपञ्चाद्विकोऽपि च दृश्यस्य सर्वसंहारकारणाय क्षमः क्षणात् एवमाकर्ण्य तद्वाक्यम् प्रोवाच स अहं शिवसुदख्यातः पराशरगृहे वसन् दृष्टसंहाररसिको भक्तपालनतत्परः नानावतार कुशलो ब्रह्मादीनामकोचर गजाननेदिमे नाम युद्धं समागतः स्वामिनं बोधगच्छन्तु तस्मै सर्वं ब्रुवन्तु च तस्मिन्हदे मानसम्मे मे तोषमेष्यदि दुर्जये क उवाच ततस्ते निर्ययिशीघ्रं सिन्धूरं प्राब्रुवन्वजः वयं शीघ्रतरं यादाः पुरुष भवदाज्ञया कृतान्तसदृशं तं तु दृष्ट्वा सर्वे च कम्पिता तदो भवत्प्रतापेन तदग्रे प्राब्रुवाम ततस्तेन समाख्यादं निजं सर्वं समासदः गजाननेदि नामास्य शिवपुत्रत्वमेव च दुष्टदैत्यविनाशाय साधूनां पालनाय च साम्प्रतं तु त्वया सार्धं युद्धाय समुपागतः स च दुर्वार्षिको बालो वल्गदे बहुविस्तरम् इदानीं स्वस्वभावेन जहि शत्रुं निजं लखुं कव तु श्वासमात्रेण दूरे गच्छेदयं शिशुः यस्य ते दर्शनात्स्वामिंश्चकम्पशिवकादयः तस्य ते गणनाकास्ति बालकस्याल्पमेधसः क एवं दूतवच श्रुत्वा सिन्धूरश्चिन्तयातुरः बभूवम्लानतुण्डश्च क्रोधारुणविलोचनः उद्वमन्नयनाद्वाग्निं प्रलयानलसन्निभम् उवाच दूदान् क्रोधेन हर्षेण च समन्वितः स उवाच आश्चर्यं परमं दूद भवद्वचसि मे भवत, भवत सिंहेन सह योद्धुं वै मशख कथमेष्यति चतुर्वर्षेण बालेन योद्धव्यं किं यूयं तधः कथं भीदा न जाने तत्र कारणम् मयि क्रुद्धे जगन्नश्येत्तत्र का जगर्ज जगर्जगर्जयन् व्योमदिशोऽपि विदिशोऽपि च धृत्वा शस्त्राणि चात्राणि निर्ययौ युद्धलालसः तत ऊजुरमात्यास्तं नमस्कृत्यासुराधिपम् सत्सु बलेश्वमात्येषु कथं ग्रासि स्वयं ऋणं वयं तं हि हनिष्यामः प्रदापात् दैत्यप समयार्थं महत्सैन्यं पाल्यते सोऽयमागतः प्राणांस्त्यक्ष्यामहे सर्वे तव हेदोर्महाप्रभो अनुजानीहि यस्यामो हन्तुं बालं रिपुं तव सिन्धूर उवाच यामि सर्वे प्रपश्यन्तु पौरुषं मम सैनिका इत्युक्त्वा प्रययो शीघ्रं बालं हन्तुं सुमुत्सुकः स प्रापक्षणमात्रेण यत्र बालस्थितोऽभवद श्री गणेशपुराणे क्रीड़ाखंडे षिशोत्तरशतमोध्याय ओम।